अव दशकम् ध्यानयोगम् आदौ हैरण्य गर्भी जीवात्मिकामास्तितस्त्वं, जीवत्वं प्राप्यमाया, प्राप्यमायाम् गुणगणकचितो वर्तसे विश्वयोनि तद्रोद्वृद्धेन सत्त्वेन तु गुणयुकलम् भक्तिभावम् गतेन चित्वा सत्वं च हित्वा पुनरनुपहितो वर्तिता हेत्वमेव सत्त्वोन्मेषात् कदाचित् खलु विषयरसे दोषभोदे विभूमन् भूयोऽप्येषु प्रवृद्धे सतमसि रजसे प्रोधते दुर्निवार चित्तम् तावद्गुणाश्च क्रतितमिकमितस्तानि सर्वाणि रोद्धुम् दुर्ये त्वय्येकबद्धि चरणमिति भवान् हंसरूपी न्यगादीत् सन्ति <Santhi> श्रोयंसि व्यभिरुचिभितया कर्मिणाम् निर्मितानि शूद्रानन्दाश्च शान्ता बहुवितगतय कृष्णतेभ्यो भवेयु त्वम् सा शक्यातसख्ये ननु महिततमा श्रेयसाम् भक्तिमेका त्वद्भक्त्यानन्दतुल्य खलु विषयजुषाम् सम्मदख्येन वा स्यात् त्वद्भक्त्या दुष्टबुद्धे सुखमिकशरतो विच्युताचस्य चाचा सर्वास्युत्सौख्यमय्य सलिलकुहर कस्येव तोयैकमय्य सोयं कल्विन्द्रलोकम् कमलजबवनं। योगसिद्धिश्च कृध्या नाकाङ्क्षत्येतदास्था स्वयमनुपतिते मोक्षसौख्येऽप्यनीह त्वद्भक्तो बाध्यमानोऽपि च विषयरसैर् इन्द्रियाशान्तिहेतो भक्त्यैवाक्रम्यमाणै पुनरपि कलुतैर् दुर्बलैर्नाभिजय्य सप्तार्चिर्दीपितार्चेर् दहति किनयता, यत भूरिधारूप्रपञ्चम् त्वद्भक्त्योगे तथैव प्रदहति दुरितम् दुर्मतक्वेन्द्रियाणाम् द्रीभावमुश्चे वबुषि च पुलथम् हर्षबाष्पम् च हित्वा चित्तम् शुद्ध्येत्कतम् वा किमु बहु तपसा विद्यया वीतभक्ते त्वद्वाता स्वादसिद्धा जनसतमरी रुज्यमानोऽयमात्मा चक्षुर्वत्तत्त्वसूक्ष्मम् भजति न तु तत व्यस्तया तर्ककोट्याम् ध्यानम् देशीलयेयम् समतनुसुख भत्तासनो नासिगाग्र यस्ताक्षक्पूरगात्यैर्जितपवनपत चित्तपद्मम् त्ववाञ्छम् ऊर्ध्वाग्रम् संविशन्त्योपरिष्ठात् तत्रस्तम् भावये त्वाम् स जल जलधर श्यामलम् कोमलाङ्घम् आनीलश्लेक्ष्णकेशम् ज्वलितमकरसत् कुण्डलम् मन्दहास शान्दार्द्रम् कौस्तुभश्री परिगत पनमालोरुहाराभिरामम् श्रीवत्साङ्गम् सुबाहुम् मृथुलसदुतरम् काचनच्छायचेलम् चारो स्निग्धोरुमम् भोरुकसलिलपदम् बवन्तं भवन्तम् सर्वाङ्गेष्वङ्गरङ्ग कुतुकमतिमुखोर्धारयङ्गीषसिद्धम् तत्राप्येकत्र युज्ञे वदनसरसिजे सुन्दरे मन्दहासे तत्रालीनम् तु परमसुखचिद्ध द्वैतरूपे वितन्वन् अन्यन्नो चिन्तयेयम् मुहुर्ति समुबारूढयोगो भवेयम् इत्थम् संसिद्धयस्था दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पदेयोर्मुरारे त्सम्प्राप्तो विलाम्भावहमखिलमितम् नाद्रिये कामयेऽहम् त्वामेवानन्दपूर्णम् पवनपुरपते पाहि माम् सर्वतापा कृष्णा कृष्णा मुकुन्ता जनर्दना कृष्णा गोविन्दनारायणहरे अच्युदानन्त गोविन्द मातवा सच्चिदानन्तनारायणहरे